अथैकोनचत्वारिंशः सर्गः इति ब्रुवाणम् सुग्रीवम् रामो धर्मभृताम् वरः बाहुभ्याम् सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् यदिन्द्रो वर्षते वर्षं तच्चित्रम् भविष्यति आदित्योऽसौ सहस्राम् शुः कुर्याद्वितिमिरम् नभः चन्द्रमा रजनीम् कुर्यात् प्रभया सौम्य निर्मला त्वद्विधो वापि मित्राणाम् प्रीतिम् कुर्यात् परन्तपात् एवम् त्वयेन तच्चित्रम् भवेद्यत् सौम्यशोभनम् जानाम्यहम् त्वाम् सुग्रीव सततम् प्रियवादिनम् त्वत्स नाथः सखे सङ्ख्ये त्वमेव मे सुहृन्मित्रम् साहाय्यम् कर्तुमर्हसि जहारात्मविनाशाय मैथिलीम् राक्षसाधमः वञ्चयित्वा तु पौलोमी मनुह्लादो यथा शची न चिरात्तम् वधिष्यामि रावणम् निशितैः शरैः पौलोम्याः पितरम् दृप्तम् शतक्रतुरिवारिहा एतस्मिन्नन्तरे सहस्राम् उष्णतीव्राम् सहस्रांशोच्छादयद्गगने प्रभा दिशः पर्याकुलाश्चासंस्तमसातेन दूषिताः मही सर्वा सशैलवनकानना ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्टैर्महाबलैः कृत्स्ना सञ्चादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः कोटिशतपरीवारैर्वानरैर्हरियूथपैः नादेयैः पार्वतेयैश्च सामुद्रैश्च महाबलैः हरिभिर्मेघनिर्ह्रादैरण्यैश्च वनवासिभिः तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः पद्मकेसरवर्णैश्च श्वेतैर्हेमकृतालयैः कोटिसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा वीरशतबलिर्नाम वानरः प्रत्यदृश्यत ततः काञ्चन शैलाभस्ताराया वीर्यवान् पिता अनेकैर्बहुसाहस्रैः कोटिभिः प्रत्यदृश्यत तथा परेण कोटीनाम् सहस्रेण समन्वितः पिता रुमाया सम्प्राप्तः सुग्रीवश्वशुरो पद्मकेसरसङ्काशस्तरुणार्कनिभाननः बुद्धिमान् वानरः श्रेष्ठः सर्ववानरसत्तमः अनेकैर्बहुसाहस्रैर्वानराणाम् वृक्षाणाम् भीमवेगानाम् धूम्रः शत्रुनिबर्हणः वृतः कोटिसहस्राभ्याम् द्वाभ्याम् समभिवर्तत महाचलनिभैर्घोरैः पनसो नाम यूथपः आजगामहावीर्यस्तिसृभिः कोटिभिर्व्रतः नीलाञ्जनचयाकारो नीलो नामैषयूथपः अदृश्यतमहाकायः कोटिभिर्दशभिर्वृतः ततः काञ्चन शैलाभोगवयो नाम यूथवः आजगाममहावीर्यः कोटिभिः पञ्चभिर्वृतः दरीमुखश्च बलवान्यूथपोऽभ्याययौ तदा कृतः कोटिसहस्रेण सुग्रीवंसमपस्थितः मैन्दश्च द्विविदश्चो भावश्य पुत्रौ महाबलौ कोटिकोटिसहस्रेण वानराणामदृश्यता गजश्च बलवान् वीरस्तिथिभिः भे कोटिभिर्वृतः आजगाम महातेजाः सुग्रीवस्य समीपतः वृक्षराजो महातेजा जाम्बवान्नामनामतः कोटिभिर्दशभिर्व्याप्तः सुग्रीवस्य वशे स्थितः रुमणो नाम तेजस्वी विक्रान्तैर्वानरैर्वृतः ते आगतो बलवाम् स्तूर्णम् कोटीशतसमावृतः ततः कोटिसहस्राणाम् सहस्रेण शतेन च पृष्ठतो लुगतः प्राप्तो हरिभिर्गन्धमादलः ततः पद्मसहस्रेण वृतः सङ्कुशतेन च युवराजोऽङ्गदः प्राप्तः पितुस्तुल्यपराक्रमः ततस्ताराद्युतिस्तारो हरिभिर्भीमविक्रमैः पञ्चभिर्हरिकोटिभिर्दूरतः पर्यदृश्यत इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत एकादशानाम् कोटीनामीश्वरस्तैश्च संवृतः ततो रम्भस्त्व न अयुतेन वृतश्चैव सहस्रेण शतेन ततो यूथपतिर्वीरो दुर्मुखो नाम प्रत्यदृश्यत कोटीभ्याम् द्वाभ्याम् परिवृतो कैलासशिखराकारैर्वानरैर्भीमविक्रमैः मृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः शतेन सम्प्राप्तः सहस्रेण शतेन च ततोदधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः सम्प्राप्तोऽपि नंस्तस्य सुग्रीवस्य महात्मनः शरभः कुमुदो वह्निर्वानरो ब्रह्म एव च एते चान्ये च चा बहवो वानराः कामरूपिणः आवृत्य पृथिवीम् सर्वाम् पर्वतांश्च वनानि च यूथपासमनुप्राप्ता येषाम् सङ्ख्या न विद्यते आगताश्च निविष्टाश्च पृथिव्याम् सर्ववानराः आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः अभ्यवर्तन्त सुग्रीवम् सूर्यमभ्रगण इव कुर्वाणा बहुशब्दांश्च प्रकृष्टा बाहुशालिनः शिरोभिर्वानरेन्द्राय सुग्रीवायन्यवेदयन् अपरे वानरश्रेष्ठाः सङ्गम्य च यथोचितम् सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा सुग्रीवस्त्वरितो निवेदयत्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् यथा सुखम् पर्वत निर्झनेषु वनेषु सर्वेषु च भानरेन्द्राः निवेशयित्वा विधिवद् बलानि बलम् प्रतिपत्तुमीष्टे इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः